अथ पंच पंचाश पंचा ततस्ताकुलां दृष्ट् विश्वास्त्रोहिता वसीषोदयास कामधुक्सृजो गया हूंकार जाता काोजार विसन्नी ऊधसा चूता शस्त्रणय योगिदेश यवना शकदाच का स्मृता रोमकूपेषु म्लेच्छाश्च हारीताः स किरातकाः तैस्तन्निशोदितम् सर्वम् विश्वामित्रस्य तत्क्षणात् सपदातिगजम् साश्वम् सरथम् रघुनन्दना दृष्ट्वा निशोदितम् सैन्यम् वसिष्ठेन महात्मना विश्वामित्रसुतानाम् तु शतम् नानाविधायुधम् अभ्यधावत्सु सङ्क्रुद्धम् वसिष्ठम् जपताम् वरम् हुङ्कारेणैव तान् सर्वान् निर्ददाह महा ऋषिः ते साश्वरथपादादावसिष्ठेन महात्मना भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा दृष्ट्वा विनाशितान् सर्वान् बलम् च सुमहायशाः विष्टो विश्वामित्रोभवत्तदा समुद्र इव निर्वेगो भग्नदंष्ट्र इवो उपरक्त इवादित्यः सद्यो निष्प्रभताम् गतः हतपुत्रबलो दीनो लूनपक्ष पक्ष इवद्विजः। हत सर्वबलोत्साहो निर्वेदम् समपद्यत सपुत्रमेकम् राज्याय पालयेतिर्युज्य च पृथिवीम् क्षत्रधर्मेण वनमेवाभ्यपद्यत स गत्वा हिमवत्पार्श्वे किन्नरोरगसेवितम् महादेव तपस्तेपे महातपाः केनचित्वथ कालेन देवेशो वृषभध्वजः दर्शयामास वरदो विश्वामित्रम् महामुनिम् किमर्थम् तप्यसे राजन् रुह्यत्ते विवक्षितम् वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयता एवमुक्तस्तु देवेन विश्वामित्रो महातपाः प्रणिपत्य महादेवम् विश्वामित्रोऽब्रवीदिदम् यदि तुष्टो महादेव धनुर्वेदो ममानघ साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयता यानि देवेषु चास्त्राणि दानवेषु महर्षिषु गन्धर्वयक्ष रक्षस्व प्रतिभान्तु ममानघा तव प्रसादाद् भवतु देवदेवममेप्सितम् एवमस्विति देवेशो वाक्यमुक्त्वा गतस्तदा प्राप्य चास्त्राणि महाबलः दर्पेण महता दर्पपूर्णो भवत्तदा विवर्धमानो वीर्येण समुद्र इव पर्वणि हतम् मेनेतदा रामवसिष्ठमृषिसत्तमम् ततो गत्वा श्रमपदम् मुमोचास्त्राणि पार्थिवः यैस्तत्तपोवनम् नाम निर्दग्धम् तेजसा उदीर्यमाणमस्त्रम् तद्विश्वामित्रस्य धीमतः दृष्ट्वा विप्रद्रुताभीता मुनयः शतशो दिशः वसिष्ठस्य च ये शिष्या ये च वैमृगपक्षिणः विद्रवन्तिभयाद्भीता नानादिभ्यः सहस्रशः वसिष्ठस्याश्रमपदम् शून्यमासीन्महात्मनः मुहूर्तमिव निःशब्दमासीदीर्णसन्निभम् वदतो वैवसिष्ठस्य मा भैरिति मुहुर्मुहुः नाशयाम्यद्यगाधेयम् नीहारमिव भास्करः एवमुक्त्वा महातेजावसिष्ठो जपताम् वरः विश्वामित्रम् तदावाक्यम् सरोषमिदमब्रवीत् आश्रमम् चरसंवृद्धम् यद्विनाशितवानसि दुराचारो हि यन्मूढस्तस्मात् त्वम् न भविष्यसि इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः विधोम इव काियम दंडमिवा परं इशे श्रीमद्राणे वाक आदि का्यलकांडे पंच पंचाश